भागवत महापुराणं दशमस्कन्ध अस चतुश्चत्वारिंशोऽध्यायः चाडूर्मुष्टिक आदिपहलवानो का तथा कंस का उद्धार शेषो कुवाच एवं चर्चितसङ्कल्पो भगवान् मधुसूदनः आससादास चाडूरं मुष्टिकं रोहिणीसुतः हस्ताभ्यां हस्तयोर्बध्वा पद्भ्यामेव च पादयो विचकर्षतुरन्योन्यम् प्रसय्य विजिगीषयाम् अरत्ने द्वे अरत्निभ्याम् जानुभ्याम् चैव जानुनी शिरसिष्णो रसोऽस्तावन् योऽन्यम् अभि जघ्नतुः परिभ्रामणविक्षेप उत्सर्पणां प सर्पसैश्चान्योन्यं प्रत्यरुद्धताम् उत्थापनैरुन्नयन्नैश्चालनैस्थापनैरपि परस्परं जिगि सन्तावपश्चक्रचुरात्मरः तद्बलाबलं वद्युद्धं समेता सर्वयोषितः उचु परस्परं राजन् सानुकम्पावथ महानयं ब्रता धर्म एषां राजसभासदां ये बलाबलवद्युद्धं राज्ञोन्विच्छति पंस्यतः क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ क्व चातिसकुमाराङ्गौ किशोरौ नाब्दयौवनौ धर्मवृतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् यत्राधर्मसमुत्तिष्ठेन्नरस्थेयम् तत्र कर्हिजे न सभाम् प्रविशेत् प्राज्ञभ्यदोषा ननुस्मरन् अब्रुवन् बिब्रुवन्यज्ञो नर किल्लु सुमस्नुते बल्गतशत्रुमभितकृष्णस्य भजनाम्बुजम् वीक्ष्यताम् संवायोक्तम् पद्मकोशमिमाम्बुभिः किं न रामस्य मुखमाताम्रलोचनम् मृष्टिकम् प्रति सामर्षम् शससम् रम्भशोभितम् पुण्या बतु व्रजभुवो यदयम् नृडङ्ग गूढपुराणपुरुषो वनचित्रमाल्यः गा पालयन् सह बल कोणयश्च वेणुम् विक्रीडयाञ्चति गिरेत्रमार्जिताङ्घ्रे गोप्यस्तप किमचरञ्जदमुश्च रूपं लावण्यसारमं समूर्ध्वमनन्यसिद्धं दिग्भे पिबन्तनुसवाभिनवं दुरापम् एकान्तधां पशन्पसन्प स्वियये स्वरस्य यादोहने वहनने मसनोपलेप प्रेख्ये खनार्भरुदुतो क्षणमार्जनादौ जायन्ति चैनम् अनुरक्तधियो शुकंठयो धन्या व्रजस्थ्यौरो क्रमचित्तयाना प्रातिर्व्रजा व्रजत आविशन्तस्य सायम् गोभि समम् क्वणयतोऽस्य निशम्य वेणुम् निर्गम्यतुल्यमबलापति भूरि पुण्या पश्यन्ति सस्मितमुखम् स एवम् प्रभासमाणासु श्रीसुयोगेश्वरो हरिः सन्तृम् शत्रुम् हन्तुम् मनश्चक्रे भगवान् भरतर्षभा सभाया श्रुगिर श्रुत्वा पुत्रस्नेहशुचातुरौ पितरावन्वन्वतप्येताम् पुत्रयोरबुधौ बलम् तैस्तैन्युद्धविधिभिर्विविधैरच्युतेतरौ योधा ते यथान्योऽन्यम् तथैव बलमुष्टिगौ भगवद्गात्र निपातैर्भज्रनिपेशनिश्वरैः चारीरो भज्यमानाङ्गोमुग्नानि मवाप ससेन वेग उत्पद्य मुष्टीकृत्य कराबुभौ भगवन्तम् वासुदेवम् क्रुद्धो वक्षस्य बाधत नाचलतप्रहारेण मालाहते उद्दीपः बाह्यो निगृहीणचारुणं बहुशो भ्रामयन् हरिः भूपृष्ठे पोथयामास तरसाक्षीणजीवितं विस्रस्ताकल्पके शास्त्रगेन्द्रध्वज इवापलत